ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायम् एच् इन्द्र उवाच अगम्यागमनं किं वा को दोषकाच निष्कृतिः एतन्मे मुनिशार्धूलविस्तराद्वक्तुमर्हसि बृहस्पतिरुवाच अगम्यागमनं नाम मातृस्वसृगुरुस्त्रियः मातुलस्य प्रिया चेदि गत्वे मा नास्ति निष्कृतिः मातृसङ्गे तु यदखं तदेव स्वसृसङ्गमे गुरुस्त्रीसङ्गमे तद्वद्गुरवो बहवः स्मृताः ब्रह्मोपदेशमारभ्य यावद्वेदान्तदर्शनं वक्ष्यते येन स महागुरुच्यते ब्रह्मोपदेशमेकत्र वेदशास्त्राण्यथैकतः आचार्यसदुविज्ञेयस्तदेकैकास्तु देशिकाः गुरोरात्मान्तमेवस्यादायार्यस्य प्रियागमे द्वादशाब्दं चरे एकैकं तु मादुलस्य मातुलस्य प्रियां गत्वा षडब्दं कृच्छ्रमाचरेत् ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति उपोषितस्त्रिरात्रं तु प्राणायामशदं चरेत् कुलटान्तु सजातीयां त्रिरात्रेण विशुध्यति पञ्चाहात् क्षत्रियां गत्वा सप्ताहाद्वैष्यजामपि चक्री किराधकैवर्तकर्मकारादियोषितः शुद्धि स्याद्वादशाहेन धराशक्त्यर्चनेन च अनन्त्यजां ब्राह्मणो गत्वा प्रमादा दब्ददशुचिः देवदास्यी ब्रह्मदास्यी स्वतन्त्रा शूद्रदासिका दासी चतुर्विधा प्रोक्ता द्वे आत्मदासीं द्विजो मोहादुःखार्थे दोषमाप्नुयात् स्वस्त्रीमृतुमदीं गत्वा प्राजापत्यं चरेद्व्रतं द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम् अष्टभिर्वैश्य नारीं च शूद्रां शौडशभिस्तथा द्वात्रिंशदात्सङ्गरजां वेश्यां शूद्रामिवाचरेद रजस्वलां तु यो भार्यां मोहदो गन्तुमिच्छति स्नात्वान्यवस्त्रसंयोक्तमुक्तार्थे नैव शुध्यति उपोष्य स्नात्वा कर्म तथैव वान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत् पित्रोरनुज्ञया कन्यां यो गच्छेद्विधिना विना त्रिरात्रो पोषणाच्छुद्धिस्ता मे वोद्वाहयेत्तदा कन्यां दत्त्वा तु योऽन्यस्मै दत्ता यच्छनु यच्छति पित्रोरनुज्ञया पाददिनार्थेन विशुध्यति ज्ञातः पितृभ्यां व्यो मासं कन्याभावेदु गच्छति वृषलसदु विज्ञेयः सर्वकर्म बहिष्कृतः ज्ञातः पितृभ्यां यो गत्वा तद्विनाशने विधवा चायते नेयं पूर्वगन्धारमाप्नुयाद अनुग्रहाद्विजादीनामुद्वाहविधिना तथा त्यागकर्माणि गुर्वीद श्रौदस्मातादिकानि च आदा उद्वाहिता वापि तद्विनाश्यन्यदः पिता भोगे चोःसाधनं साधु न ये गखिलकर्मसु ब्रह्मादिपिपीलकान्तं जगस्थावरजङ्गमं पञ्चभूतात्मकं प्रोक्तं च दुर्वासनयान्वितं जन्माद्याहारमथननिद्राभीत्यश्च सर्वदा आहारेण विना मदनास्मृतः दुस्तरो दुस्तरो मदन तस्मा सर्व प्राणीना पुनारीपत् मदन नृत प्रवृत्ति मकोदाद सृष्टिस्थिलम का तत्प्रवृत्या प्रवर्धन्ते तन्निवृत्या क्षयां गतिं प्रवृत्यैव यद्धामोऽक्तिं प्राप्नुयुर्येण धीयुताः तद्रहस्यं तदोपायं शृणुवक्ष्यामि साम्प्रतं सर्वात्मको वासुदेवः पुरुषस्तु पुरातनः इयं किमूलप्रकृतिर्लक्ष्मी सर्वजगत्प्रसूः पञ्चापञ्चात्मतृप्त्यर्थं मथनं क्रियतेतरा एवं मन्त्रान् भावास्यान्मथनं क्रियते यदि तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तपो बलवदामेतत् केवलानामधो गतिः स्वस्त्री वेदं विषय एवेदं तयोरपि विधेर्बलाद परस्परात्मैक्य हृदोर्देव्या भक्त्यार्द्रचेतसोः तयोरपि मनश्चेन्न निषिद्धदिवसेष्वखम् इयमम्ब जगद्धात्री पुरुषोऽयं सदाशिवः पञ्चविंशतितत्त्वानां हृदये मध्यतेऽधुना ये तन्मन्त्रानुभवाच्च मथनं क्रियते यदि तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः इदं च शृणुदेवेन्द्र रहस्यं परमं महद सर्वेषामेव पापानां यौगपद्येन नाशनं भक्तिश्रद्धा समायुक्तः स्नात्वा दर्जलसंस्थितः अष्टोत्तरसहस्रं तु जपेत् पञ्चदशाक्षरीम् आराध्य च परांशक्रिमुच्यते सर्वकिल्बिषैः तेन नश्यन्ति पापानि कल्पकोडिकृतान्यपि सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति इन्द्र उवाच भगवन् सर्वधर्मज्ञ सर्वभूतहितेरथ संयोगजस्य पापस्य विशेषं वक्तुमर्हसि बृहस्पतिरुवाच संयोगजन्तु यत्पापं तच्चतुर्धा निगद्यते कर्ता प्रधानसहकृन्निमित्तोऽनुमदक्रमाद् क्रमाद् दशांशदोखं स्यात् शुद्धिपूर्वोक्तमार्गदः मध्यङ्कलञ्चं निर्यासं चत्रागं गृञ्छनं तथा लशुनं च कलिङ्गं च महाकोशातकीं तथा बिम्बिं च कवचं चैव हस्तिनीं शिशुलम्बिकाम् औदुम्बरं च वार्ताकं कतकं बिल्लुमल्लिका क्रमाद्दशगुणं न्यूनमकमेषां विनिर्दिशेद पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिषस्तकः वैद्यो वैखानसश्चैवो नारी जीवोन्नविक्रयी शस्त्रजीवी परिव्रार्च वैदिकाचारनिन्दकः क्रमाद्दश गुणान्यूनमेषामन्नादने भवेद् स्वतन्त्रं तैलकृप्तं तु स्यूक्तार्थं पापमादिशेद् तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेद ब्रह्मक्षत्रविषां चैव सशूद्राणां यथौ धनं तैलपक्वमदृष्टं च भुञ्जन्पादमखं भवेद त्विजात्मदासीक्लृप्तं च तया दृष्टे तदर्थकेश सैत्था दृष्टे तदोदने शूद्र वत सू गोपाल विना गव्यचुष्ट तैलाज्य गुड़ संयुक्त पक्व वैश्यान्न दुश्यति वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टे न किञ्चन भ्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् अथ वान्तर्जले जप्त्वा द्रुपदां वा इदं विष्णुस्त्र्यम्बगं वा थैवान्तर्जले जपेत् उपोष्य रजनीमेकान्ततः पापाद्विशुध्यति अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः अन्नसूक्तं जपित्वादु भृगुर्वै वरुणीति च ब्रह्मार्पणमिति श्लोकं जक्त्वा नियममाश्रितः उपोष्य रजनीमेकां ततः शुद्धो भविष्यति स्त्री भुक्त्वा दु ब्रुवाद्यन्नमेघाद्यान् भोजयेद्विजान् आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् ोऽहं भावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते अथवा शङ्करं ध्यायञ्जक्त्वा त्रय्यम्बकं मनुं सोऽहं भावेन तज्ज्ञानान्न दोषैः इदं रहस्यं देवेन्द्रशृणुष्वचनं मम ध्यात्वा देवीं परां शाक्रिं जक्त्वा पञ्चदशाक्षरीम् तन्निवेदितबुद्ध्यादौ योत्स्नादिप्रत्यसं द्विजह नास्यान्नदोषं ना किञ्चिन्न दारिद्र्यभयं तथा न व्याधिजं भयं तस्य न च शत्रुभयं तथा जपदो मुक्तिरेवास्य सदा सर्वत्र मङ्गलं येषदे कथितशक्रपानामपि विस्तरः प्रायच्चित्तं तथा तेषां किमन्यच्छोतुमिच्छसि इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितो ललितोवाक्यानेष्टमोऽध्यायः ओ